श्रीहरये नमः अत द्वितीयोऽध्यायः श्रीशुक उवाच अन्यैश्च आसरभुबालैर्बाणभौमातिभिर्युतः यदूनां कथनं चक्रे बलिमागतसंश्रयः ते पीडितानि विविशो कुरुपाञ्चालकेकयान् साल्वान् विदर्पानिषदान् विदेहान् कोसलान् अपि एके तमनुरुन्धाना यातयः पर्युपासते हतेषु षट्शु औग्रसेनिना तमो वैष्णवं धाम यमनन्तं प्रचक्षते गर्भो बभूपदेवज्ञा हर्षशोकविवर्दनः भगवानपि विश्वात्मा विदित्वा कंसजम्बयं यदूना निजनातानाम् Yoga mayan samadhi said. Good. च देवी व्रजं भद्रे गोपगोपिरलङ्कृतं रोहिणीव सुदेवस्य भार्यास्ते नन्दगोगुले अन्याश्च कं ससंविघ्ना विवरेषु वसन्ति हि देवज्ञा जठरे गर्भं सेषाक्यं धाममामकम् तत्सं निकृष्य रोहिण्या उदरे सभागेन देवख्यापु ं शुभे प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसे अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीं धूपोपहारबलिभिः सर्वकाम वरप्रधा नाम देयानि च नराभुवि दुर्गेति भद्रकाळीति विजया वैष्णवीति च कुमुद चण्डिका कृष्णा माधवी कन्यकेति च मायानारायणी सनि सारति अम्बिकेति च वै प्राहुसङ्कर्षणं भुवे रामेति लोकरमणाद् बलं yad sandishtaivam bhagavata tatetyomi ditvatvacah pradigrihya parekramyagam gatat tattakaro गर्भे प्रणीते देवया रोहिणीं योगनिद्रया अको विश्रंसितो गर्भयिति पौरा विशुकृसुहो भगवानविश्वात्मा भक् भयंकरः आविवेशां सभागेन मन आनकदुन्धुपे सभिप्रपौरुषं धाम प्रजामानो यथारविः दुरासदोति दुर्दर्शो भूतानां सम्ब भुवः ततो जगन्मङ्गलमच्युतां सं समाहितं सूरसुतेन देवी दधारसर्वात्मकम् आत्मभूतं काष्ठायतानन्दकरं मनस्तः सा देवकी सर्वजगन्निवासनिवासभूता नितरां नरेजे भोजेन्द्रगेहेऽग्निसिकेवरुद्धा सरस्वती तां वीक्षकं सप्रभया जितान्तरान् विरोचयन्तीं भवनं शुचिस्मिताम् आहैश मे प्राणहरो हरेर्गुहान् ध्रुवं श्रितो यन्नपुरे यमीदृशे किमद्य तस्मिन् करणीयमासु मे यदर्थतन्त्रो न विकन्ति विक्रमं स्त्रिया स्वसुर्गुरुमध्यावदोऽयं स एष जीवन् खलु सम्परे तु वर्तेतयोऽत्यन्तनृसिंसितेन देहे मृते तं मनुचासपन्ति गन्ता तमोदं तनुमानिनो ध्रुवम् इति घोरतमाद्भावात् सन्निवृत्त स्वयं प्रभुः आस्ते प्रतिशंस्तजन्म हरेर्वैरानुबन्ध कृ आसीन संविसंस्तिष्ट भुञ्जानः पर्यटन्महीं चिन्तया नो ऋषि केशम् अपस्त्यतन्मयं जगत् ब्रह्मा पश्च तत्रैत्यमुनिभिर्नारदादिभिः देवैः सानुचरैः साकं गीर्भिर्भृषणमैढयन् सत् सत्यव्रतं सत्यपरं साथ्या त्रिसत्यं सत्यस्य साथ्या योनिं निहितं च सत्ये सत्यस्य साथ्या साथ्या सत्यं नृतसत्यनेत्रं सत्यात्मगं त्वां शरणं प्रपन्ना एकायनोऽसौ द्विपलस्त्रिमूलचतुरसः पञ्चभित षडात्मा सः कष्टमिटपोनवाशो दसश्चित्विगोह्यादिवृक्षः त्वमेपदेवाश्च सतः प्रसूदिस्त्वं सन्निधानं त्वमनुग्रहाश्च त्वन् मायया संवृतचेतसस्त्वां पश्यन्ति नानान विपश्चितो पर्षिरूपाणि अवबोत आत्मा क्षेमायलोकस्य चराचरस्य सत्त्वोपपन्नानि सुखावहानि सामभद्रात्राणि मुहुकलन त्वय्यम्बुजाक्षा किल सत्पदाम्नि समाधिनावेशितचेतसैके त्वत्पातपोतेन महत्कृतेन कुर्वन्ति को वत्सप्पथं स्वयं समुत्तीर्य सुधस्तरं भवार्णवं भीममदप्रसौहृता भवत्पदाम्बोरुगनावमत्र ते निधाय यात सदनुग्रहो भवान् येन ये त्वय्यस्तभावात् अविशुद्धबुद्धयः आगृह्य कृश्रेण परं पदन्तत पतन्त्य दोनादृतयुष्मधङ्ग्रयः ताने मातभतावका क्वचित् प्रशन्ति मार्गा भक्तसौहृदाः त्वया विचरन्ति निर्भया विनायकानिकपमूर्धसुप्रभो सत्वं विशुद्धं शयते भवान् स्थितौ शरीरिणां श्रय उपायनं वपू वेतक्रियायोगतपः तवार्गणं येन जनः समीपते सत्वं न चेतातरिदं निजं भवेत् विज्ञानमज्ञानभितापमार्जनौ गुणप्रकाशै अनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ननामरूपे नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः मनोवचोऽभ्यामनुमेयवर्त्मनो देवक्रियायां प्रतियन्त्यतापिः शृण्वन् गृह्णन् संस्मरयन्श्च चिन्तयन् नामानिरूपाणि च मङ्गलानि ते क्रियासु यस्त्वच्चरणा रविन्दयो आविष्टचेता न भवाय कल्पते दिष्ट्या हरिश्या त्वत् पतगैषु सोपनै द्रश्यामगा मद्यां च तवानुकम्पिता न ते भवस्ये स कारणं विना विनोतं भत तर्कयामहे भवो निरोतस्थितिरप्यभिद्यया कृतायतस्त्वय्यभयाश्रयात्मनि मत्स्यात्वकश्च पनृसिंहवराकहंस राजन्यविप्रविभुतेषु कृतावतारकान् त्वम्पासिनस्त्रिभुवनं च यदातुश भारं भुवो हरयदूतमवन्दनं ते दिष्ट्याम्बते कुशिगदः परः पुमान् अंसेन साक्षाद्भगवान् भवाय नः मा भूद्भयं भोजपदेर्मुमूर्षोर्गोप्ताय दूनाम् भविता तवात्मज श्रीशुक उवाच इत् य विष्टूय पुरुषं यद्रूपमनिदं यत ब्रह्मे सानौ पुरोदाय देव प्रतियुर्दिवम् इति भागवते महापुराणे दशमस्कन्धे पूर्वार्दे गर् गर्भगदविष्णोर् ब्रह्माधिकृतस्तुतिर्नाम द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मगराजकी जय